अस्येदिन्द्रो मदे॒श्वा विश्वा॑ वृत्राणि जिघ्नते चूरो मघाचमं हते अस्येदिन्द्रो मदे अश्वा विश्वा वृत्राणि जिघ्नते चूरो हते अ॒स्येदिन्द्रो मदे॒श्वा विश्वा॑ वृत्राणि जिघ्नते चूरो मघा च मंहते